ओ um. अयथा देवतमग्न्यं च नुत आ देवताभ्यवृष्यते पापीदान् भवते देवताभ्यावृष्यते अवसीदान् भवत्याग्नेयागाय त्रिजा प्रथमाञ्चतिमभिमृशे त्रिष्टुभाः द्वितीयान् जगत्या द्वितीयामनुष्ठुभा चतुर्थीं पञ्चा पञ्चमे यथा देवतमेवाग्निञ्चनुवताभ्यावृक्ष्यते अवसीदान् देवा देशाददेवातस्तिष्ठेता कृष्णवृत्तरतश्वेतो दक्षिणस्तावालभ्येष्टक उपदध्यादे तद्वये प्रजापते रूपं प्राजापत्यश्व साक्षादेवाजापददे प्रतिभ्र्यञ्चिन दिनार्तिमार्च्छप्त्य श्वेतोश्वरात्रि हे कृष्णे तदन्धरोपय्यतिष्टका पुरेशतिष्टका पूर्णं ददाति मथसा शः प्रजापतिः प्राजापत्योश्वस्तमेव साक्षादृध्नोति वामग्ने वृषभम् च गितानम् पुनर्युवानम् जनयन्नुपागा अस्थोरिणो गारिषपत्यानि सन्तु दिग्मेन नो यतेष्टकाश्चिच्याञ्च वृषभमुपदधाति मिथुनमेवास्य तज्जज्ञ करोति तस्मा ज्योचे ज्योचृषभः संवत्सरस्य प्रतिमायाम् द्वारा सुवासदे प्रजागम् सुवीराम् कृद्वा विश्वमादिर्जश्नवत् जापत्यामेतामुपदधाति जम्बा वै शैकाष्टकाय देवैकाःष्टकाजामेव वैतजा वरुन्ध देशा वै प्रजापदे कामदुघा तजैव जजमानो मुष्मिन्वो जेन देवाध्योदुषोऽर्ध्वा बुदा जनजेन निद्यापसवो जेन रुद्राः येनाङ्गिरसौ महिमानमानसस्तेनैव यजमानस्वस्ति सुवर्गायवारेष लोकाय सेयते कदग्निर्जेन देवाज्योतिषोद्वादा जैत्यक्षकुम्समिन्धरिष्टकाय वैता उपधद्देवानस्पत्या सुवर्गस्य लोकस्य समष्टे शतायुधाय सदवेर्यायतोहे शतञ्लोनः शरतो अजेतानि लोने शददितानि विश्वा य चत्वारः प्रसजो देवजाना अन्तराज्या वा पृथिवी विजन्ति तेषा यो अज्जा निमजेति मा वहा तस्मै नो देवाः परिदत्तेः सर्वे ग्रेष्माहेमन्तवतनोपसन्तः शरद्वर्षास्तु वितन्द्वो अस्तु तेषामृतो नागम् शतशारदानान्यवा तजेषामभजे स्याम निरुवत्सराज बलिवत्सराय संवत्सराज कृणुता बृहम् नमः तेषाम् वजगोसमदो यज्ञजानाञ्जोगजेताहतास्याम भद्रान्नश्रेयः समनेष्टदेवास्त्वजापसेन समशेवहित्वा नोमजो भोः पिताविश श्मशन्तोकाय तनुवेः स्यो नः ेवता उपधात्येता वै देवता अपराजितास्ता एव प्रविशद नैव जीगते ब्रह्मवादिनोपदं देहदर्धमासा मासा ऋतवः संवत्सरवौषधेश्वजं दश कस्मादन्याभ्यो देवताभ्याग्रहणं निरुप्य दृत्येता ऋतुभ्यो निर्मपेद्देवताभ्य समदं दध्यादाग्रहणं निरुप्ययिता आहुते ृजत्येवताः समलम् दधाति भद्रान्नः श्रेयः समनेष्णदेवादिद्याः हुता पराभावाय इन्द्र वज्रोऽसिमार्थाभ्रस्तनोपानः प्रतिस्पृशः यो नः पुरस्ताः दक्षिणतः पश्चादप्तरतो खाजुरभिता सत्यगम् देवासुराः संयप्तासन्तेऽसुरादिभ्यः बाधम् तताम् देवा इष्पा च वज्रेण चापानुदम् यद्वज्रणेरुपदधा देष्पाशे म तद्वज्रेण ब्रह्मवादिनो वदं द्विजं न देवदायजुष्मप्यसगं दे देवक्त्यावसोर्धारे जज्ञर्वसस्तस्यैषाधारा विष्णर्वसस्तस्यैषाधाराज्ञा वैष्णवज्जावसोर्धाराञ्जुहो दिभागे जेनैर्वैनौ समर्धयत्यथो जयतामे जे बाहुदिमागतनवधिं करोतिजक्षामनेनाञ्जुहो जेवावरुन्धे दे रुद्रो वादेश यदग्न्यस्तस्यैते तनुवौघोर ्या शिवान्यायच्छत रुद्रेयं जहो दिजैवास्त घोरातनोऽस्तां धाराञ्जहोधिजैवास्य शिवादनोऽस्तां तेन प्रेणादियो वै वसोऽर्धाराय प्रतिष्ठाम् वेद प्रत्ययवधिष्ठधिष्ठे तस्मिन् ब्रह्मो धनं वचेत्तम् राम्भणाश्चत्वारः <न्हना> प्रास्मिन् अग्निरुपयेष्वाधरो णदेशा खलु वा अग्नेः प्रिया तनोर्यद्वै स्वाधनः प्रियायामे वैनान् तनुवान् प्रतिष्ठा वयति च दश्रोथेनोर्दजाताभिरवजमानोमुष्मिन् लोके हेर्निन्दुहे ृत्यञ्जुहामनसाधृतेभ्या वै नामेषाहुजर्वैश्वकं वणेनैनं देवता एवावरुन्धे पञ्च्याजुहो द्विपंद्याहुत्याखमारभते सप्तदे अग्ने समितस्सप्त जिग्त्या होत्रा एवावरुन्धे देवेभ्यो ग्रामद्भागेदमिच्छमानस्तस्मादेतत् गेदम् प्रायच्छन्ने तद्वा अग्नेग्निहार्द्रमेतरिः खलु वा देश जातो जलिः सर्वश्चितो जाता दैवास्मा अन्नमपि तथातिसरेण प्रेतः प्रेरणा दिवसेनाम्भवति ब्रह्मवादिनाहवने जगित्यसा वादित्यजितिब्रो जगेमम् विद्वानग्निम् च नुदे साक्षादेव देवतारुद्धात्यग्ने मम निहावः वयम्परमे श्रीसुवज्राः समानानामुत्तमश्लोकोऽस्तु भ्रम्भश्यम् तपसे तुरग्रे तरो दीक्षा विषयस्वर्विदः तदा क्षत्रम्बमोजश्च जातम् तदस्मै देवाभिषन्नमन्तु धाता विधाता परमोदसन्द्रग्भजापदिः परमेष्ठीविराजा स्तोमाच्छन्दांसि निमिदोमाहुरे तस्मै राष्ट्रमभिसन्नमामभ्यावर्ताधमुपमेतसाकमयगुम् सास्ताधिपतिर्भो अस्तु तस्य विज्ञानमनसगोरभद्धमिमम् पश्चादनुजीवा च सर्वे राष्ट्रभृतयेता उपदधात् तेषा वा अग्नेश्चिति राष्ट्रभृत्तयैवास्मिन् राष्ट्रम् दधाति राष्ट्रमेव भवति नास्माद्राष्ट्रम् प्रगुंसते यथा वै पुत्रो जातो म्रियत एवं वा एषं म्रियतेजस्याज्ञाद्ञ्जाद्भ्रातरुजमस्मे जनजेत्सजैव पुनः परेद्य स्वादेवैनं योनेजधिनास्मे भ्रातरुजं दनजति तमो वाजेतं ग्रन्हाधिजस्याज्ञाजति मृत्युस्तमः कृष्णं वाचः कृष्णाधिरनुर्दक्षिणा तमसैव तमो मृत्युमपहते हिरण्यम् न्ददि ज्योतिरिवैहिरण्यं ज्योतिषैव तमोपहते ज्योतेज्यो ैतदग्नौ क्रियतापो वा इदमग्रे सिलमासेत् सां प्रजापतिः प्रथमाञ्चमपश्च तामुपाधत्ततरियमभवत् तं विश्वकर्मा ब्रवेदु पत्वा यानि दिनेहलोकोऽस्तेत्यब्रवेत् स वेदान् त्रियाञ्चिदमपश्च तामुपाधत्तततं तदिक्षमभवत् स यज्ञः प्रजापतिमब्रवेद पत्वा यानि दिनेहलोकोऽस्तेत्यब्रवेत् स विश्वकर्म ब्रवे पद्वा जानेति केनमापये शसेति दिश्याभिरित्यब्रवेत् तं दिश्याभिरभयेत् तादुपाधत्ततादिशो भवान् स परमेष्ठे प्रजापदिमब्रवेद भद्वाजा दुनैह लगोस्तेत्यब्रवेत् स विश्वकर्माणं च लिग्दं चाब्रवेद पवामायाने दिनैहलोस्तेत्यब्रूतागुंस जयतां भवत्सादित्यः प्रजापदिम ब्रवेदुपद्वायानि दिनेहलोकोस्तेच्च ब्रवेत् स विश्वकर्माणं च यज्ञं चा ब्रवेदुपवामायानि दिनेहलोकोस्ते च ब्रोता स परमेष्ठिनम ब्रवेदुपत्वा यानि दिगे नमोपयेश्यशीतिलोकं प्रणयेच्च ब्रवेत्तल्लोकं प्रणजोपयेत्यस्मादजातजामे लोकं साण्ठज ब्रुवन्नुपवाजामेधिकेन उपैष्येति भूम्नेत्य ब्रुवन्तान् वाभ्याञ्चते समवञ्चसज देवम् विद्वानग् नु ते भोजानेव भवत्यभीमान् लोकान् यजति विदुरेनम् देवासौ एता ग्निर्यदग्निचित्पक्षिणोः श्रीरानस्ति खलु पचरधितस्मा पश्चात्त्वामुपचरित आत्मनो हिमं भारेज्योजो मे यच्छलवे यच्छ्योतिरसि मे यच्छान्तरिक्षै यच्छान्तरिक्षान्मा वा यच्छति मै यच्छति वो मा भाहेताभिर्वाजमे लोकाभिधता यदा उपदधा तेषां लोकानां विधद्य स्वजमातृन्ना उपधादहिरण्येष्टका उपदधा धीमेवै लोका स्वजमातृन्ना ज्योतिर्हिरण्ये यत्सजमातृन्ना उपधादहिरण्येष्टका उपदधा लोगान् चो दुष्मदः कुरुते च एताभिदेवास्मारिमे लोकाप्रभान्ति यास्ते अन्ये सूर्यैरुच उद्यतो निरश्मिभिः ताभिः सर्वाभिरुचे जना जनस्कृति याहो देवासूर्यैरुचो गोष्वश्व रुचः सर्वाभिरुचन्नो दत्त बृहस्पते रुचम् राथेः ब्राह्मणेष रुचकम् राजसुरस्कृतिः रुचम् विश्वेष सोन्द्रेशमजितेः रुचारुचम् अग्निं च ज्ञानस्यैशलिं द्रयं गच्छत्यग्निं वाचितमे जानं वागदेता आहुवेत्रात्मन्येवैशल्यं द्रजं धत्त एश्वरो वा एष आत्मार्योयामि ब्रह्मणा वन्दमानयतिवारुण्यर्जाजुहजाग् हृदयथा वे हविष्क न्दत्येवं वा एष स्कन्दजयों चिद्वा स्त्रियमुपैत मेत्रावरुण्यामिक्षजात्रावरुणतामेवोपैवात्मनो स्कन्दादरो वा अग्निमृतुस्थाम्ये दत्रस्मै कल्पमानजे प्रत्येव तिष्ठति संवत्सरो वा अग्निरुणुस्थास्तस्य वसन्तस्यो ग्रीष्मो दक्षिणः पक्षो वरुषा पुच्छ सरलुत्तरः पक्षो ध्यम् पूर्वपक्षास्ति तजोपरपक्षा पुरेश महोरात्राणेष्ण एष वा अग्निरचतुष्ठाय एवम् वेदत्तुरतुरस्मै कल्पमानजेति प्रप्त्येव प्रजावतिर्वा एतम् ज्येष्ठकामोऽन्य सज्जेष्ठ्यमगच्छद्गेवम् विद्वानग्निम् च नृते गच्छति यदा गूतात् समशुस्रोद्धृतो वा मनसो वा संहृतम् ैः सुकृतस्य लोकैयग्ल प्रथमजाये पुराणाः सधस्थपलि चेतदावहात वेदाः अम्बागन्ता यानव दर्वो अत्र तद्भिस्म चालीत परमे व्योमन् चालीतादेन परमे व्योमन् देवाः सधस्थावितरूपमस्य यदा गच्छाः पथिभिर्देवजाने नष्टावोक्ते कृणुताधाविरस्मै सम्भ्रस्य मध्वमनुसम्प्रजाताग्ने पथो देवजानाम् कृणुध्वम् अस्मिन् अध्युत्तरस्मिन् विश्वे देवा यजमानश्च सेदत प्रस्तरेण परिधिनाः स्वचा वेद्या च परिहिषा मयि यज्ञम् नावहसमद्देवे सुगन्धवे निष्टै्यद्वरा लानै यद्दत्तैजा सदक्षिणा तदग्निर्वैः स्वकर्मणः सुवर्देवेषु नो दधत् येनासहस्रम् वहसि जनाहाग्ने सर्ववेधसम् तेने मै यज्ञम् नो वहसुवद्देवेषु गन्तवे येनाहाग्ने दक्षिणा युक्ता यज्ञम् वहन्ति त्विजः तेन मयि यज्ञम् नो वहसुवद्देवेषु ेनाहाग्ने सुकृतः पथामथोर्धारा यानसुः तेन मयि यज्ञन्नो महसुवर्देवेषु गन्तवे यत्र धारा अनपे त्वामथोर्घृतस्य सजाः अनग्निर्वयेष्वकर्मणः सुवर्देवेषु नोदधत् ध्यास्ते अग्ने सुमिधो जानिधा मजा जिह्वा जातवे दो यो अर्चिः येदे येरे अग्नेभेदयोजिन्दवस्तेभिरात्मानम् च नुहेरानन् सन्नदज्ञो वा एष यदग्निः किम् वा हैतस्य क्रियते किम् वा नयद्वा अधर्जुरग्ने सिन्मन्नम् तरेत्यात्मनो वैतदम् तरेतिजास्ते अग्ने समिथो जानिसामेत्याहैषा वाग्ने स्वयञ्चितिरग्निरेव तदग्निम् चिनो दिनात् भर्जुरात्मनोम् तरेति तदस्राशातरम् नजतु प्रजानम् न चरकम् सुबेरम् ब्रह्म समिद्भवज्जाहुतेनाम् सुवर्गाय वादेश लोकायोऽपधीयते यत्त्वर्मश्च तस्र आशाः प्रचरन् वज्ञय नित्याहेनो यज्ञं न यद्वजानन्नित्याह सुवर्गस्य लोकस्याभिनयेत्ये ब्रह्मदमिद्भवत्याहुजेनामित्याह ब्रह्मणा वैदेवासुवर्गं लोकमाधनयद्ब्रह्मन् वर्जोपदधाति ब्रह्मणे पदन् यजमानस्वर्गं लोकमे निजापतिर्वादेश यदग् स्य प्रजाः पशवच्छन्दागुम् शिरोपगम् सरुपानुवर्णानिष्टगाणाम् गुर्या ध्रूपेणैव प्रजाम् पशो्छन्दायस्य वरुन्ध्यथो प्रजाभ्यदेवैनम् पशुभ्यच्छन्दोभ्यो वरुध्यचनुते मय गृह्णाम्यग्रे अग्निगोराजस्पोषाचसु प्रजास्त्वादसुवेरिजाय जप्रजाम् तथा निरुष्टाः स्यामदनुवासुवीराः यो नो अग्निः पितरो हृत्सान्तरमर्चो मर्जागुम् आविवेश तमा पुनम् परिगृह्णेमहे वयम् मासो अस्माकम् यदा धर्जुरात्मन्नग्निमगिहेत्वाग्निं च नुजाद्यं खलु वे पशवो नोपतिष्ठं देवक्रामुका अस्मात् पशवस्य गृह्णाम्यग्नेत्याहात्मन्नेव स्वमग्निं ैवेजन्मृदा चिनोति इदं वा अग्निर्वयेष्वानोग्निवदग् वा जनोपदं जन्मृदा चाद्भ्यश्चानिश्चेजते कस्मादग्निरोच्यत इति यच्छं वाश्चिनाद्यग्नि तस्मादग्निरोच्यते ृदा च नोदितस्मादग्ने्येष्टका उपदधा दि ज्योतिरुवास्मिन् ते जरेवात्मं तेजो वा अग्निकं सर्वतोमुखं च नु ते सर्वासु प्रजादिशोऽस्तादुपदधा दिप्तिष्टुभं दक्षिणतो जगतिं पश्चादष्टुभमप्तरतः पङ्क्तिं मध्यदेश वा अग्निः सर्वतोमुखस्ते यदेवम् विद्वा किश्च नु ते सर्वासौ दिशोऽ स दिश्यैव दिशम् प्रवजति तस्माद् क्रोता प्रजापजरज्ञमसृजतसोऽस्मात् सृष्टः प्राङ् प्राद्रवत्तस्माश्वं प्रत्या सत्स दक्षिणा वर्त तस्मै वृष्टिं प्रत्या सत्स प्रत्यङ्गा वर्त तस्मात् शभं सत्स बुदङ्गा वर्त तस्मै भस्तम् प्रत्या सत्स वूर्ध्वो द्रवत्तस्मै पुरुषं प्रत्यात्पशेष्यपदधात् सर्वतै नवरुद्धुनत नेता वै चक्षुष्मदेष्टका यत्पशु शीर्षाणिजत् पशुशीर्षान्युपतधा जिताभिरेव यजमानो तथोताभिरेवास्मादिमे लोकाः प्रभालिव्योपदधाति मे धार्वादेशव एष खलु वा अग्निर्जत्पशुशीर्षाणिजं कामदेजोऽ तस्य पशुशीर्षान्युपदध्या स्यान्नम् भवति जङ्कामजेत समापदस्यान्नस्यादित्यस्योपदध्या समापदेवा स्यान्नम् भवति जङ्कामजेत भोजोऽस्यान्नस्यादित्यम् देष्ठुतस्य विजुतोश्चोपदभ्यातम् दददेवान्नमवरुन्धे भोजोस्यान्नम् भवति सेगान्दगृष्ट्राभ्याम् मण्डोकाञ्जम्भेभिरादकाम् खादेन सगुम् सोदेनाारण्यञ्छम्बीलेन मृदम् भस्मेभिः शर्कराभिरवकामवकाभिः शर्करामुत्सादेन क्रन्देन सरस्वती जिह्वाग्रेण चकम् हनोःभ्यामपास्यनादित्यान् श्मश्रुभिरुपयालेनोष्ठेन ना सदुत्तरेणाम् तरेणा नोकाशम् प्रकाशेन बाह्यग्रस्तनयत्नम् निर्वाचेन सूर्याग्नेचक्षुर्भ्याम् विद्युदौ कनानकाभ्यामशनिम् मस्तिष्केन बलम् मज्जभिः कोर्माच्छलाभिः कबिन्दलान्सामकुष्ठिकाभिर्जमाम् यङ्घाभिरजनञ्जानुभ्याम् वेरिजम् गुहाभ्याम् भयम्बजालाभ्याम् गुहापवक्षाभ्यामस्मिनामगुंसाभ्यामलिगुंसेष्णा निर्जामकरसेष्मा ृद्धाभिर्युगमानरेण चित्तम् मन्याभिः सङ्क्रोशान् प्राणेः प्रकाशेन वशम् पराकाशेनान्तराम् मशकान् केशयलिम् राज्ञस्त्वमसा वहेन बृहस्पतिगुंशगुनिसारेन रणौ श्रोणेभ्यामिन्द्राखण्डाभ्यामिन्द्रा बृहस्पत्योभ्यामिन्द्राविष्णो अष्टे वद्भ्यागम् सवितारम् वृच्छेन धर्वाञ्छेण सरसमुष्काभ्याम् पवमानम् पादुना पवित्रम् भोग्राभ्यामाक्रमणं द्विस्थुराभ्याम् परिक्रमणम् पुष्ठाभ्या इन्द्रस्य क्रोढोदित्ये पाजस्य दिशाञ्छो जेमोतान् हरवशाभ्यामन्तरिक्षम् पुरितदानभवर्गेणीन्द्राणीम् प्लेन् भावल्मीकान् कोम्नागिरेन् प्लाशिभिः समुद्रमुदरेण वयेष्व नरम्भस्मना ष्णोवनिष्ठुरम् धाहेच्छोर गुदा सत्पान् गुदाभिरतोन्ष्ठेभ्यम् पृष्ठे नवसूनाम् रसमाखेकसा रुद्राणान् द्विरीरादित्यानाः द्विरीराङ्गिरसाम् चतुर्थे साध्यानाः पञ्चमी विश्वेषाम् देवानागुषष्ठी भोजोः ग्रेवाभिर्निरृतिमस्थलिन्द्रग्स्तपसावहेन रुद्रस्य विशतस्क्रन्थोः राग्रजोः द्वितीयोः अर्धमासानाम् द्वितीयोमासान् चतुर्थऋतोनाम् पञ्चमः संवत्सरस्य षष्ठः आनन्दन्नन्दसु नागामम् प्रव्यासाभ्याम् भजगंसितेमभ्याम् प्रशिषम् प्रशासाभ्यागम् सोल्याचन्द्रमसौ प्रज्ञाभ्या यस्यामसफलौ मतस्नाभ्याम्यष्टियोपेण निमृक्तिमरूपेण पुंसेन रात्रिम्बेव सापो जोषेण घृतगोरसेन श्याम् दोषे का भ्रादु नवश्रभिप्रश्वाम् दिवगो रूपेण नक्षत्राणि रूपेण पृथिवेञ्चर्मणा छवेन् छविजोपागताजस्वाहा लब्धा जस्वाहा हुताजस्वाहा ग्नेः पक्षतिः सरस्वत्यै निपक्ष्यतिः सोमस्य तृतीयापाञ्चतुीनाम् पञ्चमे संवत्सरस्य षष्ठे मरुताकम् सप्तमे बृहस्पतेरष्टमे मित्रस्य नवमे दशमेन्द्रस्य एकादशे विश्वेषाम् देवानाम् द्वादशे ज्यावान् ऋषिविजोः पार्श्वे जपस्य आलोः पक्षतिः सरस्वतो निपक्षतिश्च ब्रमसृते नक्षत्राणाम् चतुर्थे समिदुः पञ्चमे रुद्रस्य षष्ठे सर्पाणागम् सप्तम्यर्जह्णो अष्टमे पन्धामनोरिभ्यागुम् सन्तदिग्रस्नावन्याभ्यागुम् सुकान्विक्तेन हरिमाणे यक्ष्नाहलेक्ष्णान् पापपादेन कोष्माञ्छकभिश्च वर्तानुपथ्येन शुनोभिशसनेन सर्पान् लोहितगन्धेन वजागुम् शिवक्वगन्धेन प्रसादेन क्रमेरच्चक्रमे द्वाजे विश्वैर्देवैर्यज्ञजये संविदानः सनानय सुकृतस्य लोकम् तस्य ते भजज्ञस्वधजामदेम योऽस्ते वृक्षम् पृथमे तथः समात्मान्तरिक्षको समुद्रो यो निःसूर्यस्ते चक्षुर्वातः प्राणश्चन्द्रमाश्रोक्तम् पर्वाहातवोऽङ्गानि संवत्सरो महिमा अग्निः पशुरासे तेनाजन् दश देतं लोगमज यद्यस्मिन् अग्निः सते लोकस्तञ्जे हेषस्य छावजिघ्रवाजुः पशुरासे हरे <tries> ओ